इपतिमूवद् दशकम् चित्रकेतु उपाज्ञानम् प्राचेतसस्तु भगवन् अपरोहिदक्ष त्वत्सेवनम् यदिदसर्गभिवृद्धिकाम आविर्बभूविततालसदष्टभागो तस्मै वरम् दतितताम् च वधूमसिग्ने तस्यात्मजास्त्वयुतमीश पुनस्तगस्रम् श्रीनारदस्य वचसा तव मार्गमापो नैकत्र वा सम् दृशये समुपोचाप भक्तोतमस्वऋषिरग्नग्रमेव दौहित्रसूनुरतस्तस्य स विश्वरूप त्वत्सोऽस्त्रवर्मितमजाभयदिन्द्रमाजो देव त्वदीयमहि मा प्राक्सूरसेन विषये किल चित्रकेतु पुद्राग्रहीनृबधिरङ्गिरसप्रभावात् लब्धैकपुत्रमदतत्र गते सपत्नी सङ्गै अमुक्यत वचस्तव माययासो नारदस्तु सममङ्गिरसादयालु सम्प्राप्य तावदुपदर्श्यसु तस्य जीवम् कस्यास्मि पुत्र इति तस्य गिरा विभोगम् त्यक्त्वा द्वदर्शनवित निबतिन्ययुङ्क्तत्रम् च मन्त्रमविनारदतोतलद्वा तोषाय चेश वबुषो ननु ते तपस्यन् विद्यादरातिपतिताम् सखि सप्तरात्रे लब्ध्वाव्यकुण्टमदिरन्वभजत् भवन्तम् तस्मै मृणालतवलेन सखसेष्णारूपेण बत्तनुति सिद्धगणावृदेन प्रादुर्भवन् अचिरतो नुतिपि प्रसन्नो तत्त्वात्मतत्त्वमनुगृह्यतिरोददाद त्वद्भक्तमौलिरतसोऽपि च लक्षलक्षम् वर्षाणि हर्षुलमनाभुवनेषु कामम् सङ्गापयन् गुणगणम् नूनम् स्वरूप्य गिरिमाभ्यमहत्समाजे निःशङ्कमङ्गकृतवल्लभमङ्गजारिम् तम् शङ्करम् परिहसन् उमयाभिचेबे निःसम्भ्रमस्त्वयमयाचितचापमोक्षो भक्त्यात्मतत्त्वगतनै समरे विचित्रम् शत्रोरवि प्रमबास्य कथक्पधन्ते त्वत्सेवनेन दितिरिन्द्रवतोऽद्यथापि तान्त्रत्युदेन्द्र सुहृतो मरुतोऽभिलेबे दुष्टाचत निषेब तत्तावनाल चीहर नम